हरिओं श्री सीताचंद्राभ्या नम अथ श्रीमद अध्यात्मणे कि पंचम सर्ग श्री महादेव रामस्तु उवाचरामस्वत्याग्रे मणिशा निशामुखे निशा सीता विरह सीताशोक असहन निदमब्रवीत पश्य लक्ष्मण सीता राक्षसेन हृता बलात् मृतामृता वा निश्चेतुम् न जानेद्यापि जा भामिनीम् जीवतीति मम ब्रूयात् कश्चिद्वा प्रियकृत्समे यदि जानामि ताम् साध्वीम् जीवन्तीम् यत्र कुत्र वा हठादे वा हरिष्यामि सुरामिव पतिज्ञां शृणु मे भ्रात येन मे जनकात्मजा नितातं भस्मसात्कुर्यां स पुत्र बलवाहनम् हेति ते चन्द्रवदने वसन्ति राक्षसालये दुःखाता माम् अपश्यन्ति कथं प्राणान् धरिष्यति चन्द्रोऽपि भानुवद्भाति मम चन्द्रा नाम विना चंद्र तम जानक स्पृश्वा करर्मा स्पृशीतले सुग्रीवी दयान दुखित पश्य राज्यम निष्कटकम प्राप्य स्त्री पृतघ्नो दृश्य से व्यक्त पानसक्तौति का मुक नया शरदं पश्य अगय प्रिया पूर्वोपकारिणम् दुष्ट कृतघो विस्मयुतो हि माम् हन्वि सुग्रीवमप्येवम् स पुरं सह बान्धवम् वाली यथाहतो वेद्य सुग्रीवोऽपि तथा भवेत् इति दृष्टं समालोक्य राघवम् लक्ष्मणो ब्रवीत् इदानीमेव गत्वाहम् सुग्रीवम् दुष्टमानसम् मामाज्ञापयः त्वारम् आयासे राम तेन्तिकम् इत्युक्त्वा धनुराधाय स्वयम् तोणीरमेव च गन्तुम् अभ्युद्यतम् वीक्ष्य रामो लक्ष्मणम् अब्रवीत् न हन्तव्य सुग्रीवो मे प्रियः सखा किन्तु भीषय सुग्रीवम् वालिवत्तम् हरिष्यते शीमा सुग्रीव प्रतिभाषित आगत पश्चा यम्य संशय तथेति लक्ष्मण गीम विक्रम कि निर्दन वानर श्री महादेव उवाच सर्वज्ञो निलक्ष्मी कौ विज्ञानात्मापि राघवे सीतामनुष शोचात् प्राकृतय प्राकृताम्बि वुद्ध्यादि साक्षिणस्तस्य माया कार्यातिवर्तिनः रागादिरहितस्यास्य तत्कार्यं कथमुद्भवेत् ब्रह्मणोक्तमृतं कर्तुं राज्ञोदश रथस्य हि तपसय फलरामाय रातो मानुष वेशधृ मायया मोहिता सर्वे जना ज्ञानसंयुतः कथम् एषाम् भवेन् मोक्ष इति विष्णुर्विचिन्तयन् कथाम् प्रथयितुम् लोके सर्वल्लोकमलापहाम् रामायणाभिधाम् रामो भूत्वा मानुष चेष्टकः क्रोधम् मोहं च कामम् च व्यवहारार्थसिद्धये तत्तत्ताकालोचितम् गृह्णन् मोहयत्य वशा प्रजा अनुरक्त इवाशेष गुणेषु गुणवर्जितः विज्ञानमूर्तिविज्ञानशक्तिसाक्ष्य गुणान्वितः अथ कामादिभिर्नित्यम् अविलिप्तो यथा नभ विन्दन्ति मुनय केचित् जानन्ति जनकादियहे तद्भक्ता निर्मलात्माना सम्यक् जानन्ति नित्यदा भक्तचित्तानुसारेण जायते भगवानजः लक्ष्मणोऽपि सदा गत्वा कृष्किन्धानगरान्तिकम् जयघोषम् अकरोत् तीव्रम् भीषयन् सर्ववानरान् तन् दृष्ट्वा प्राकृतास्तत्र वानर वप्रं मूर्धनि चक्रुकिल्लिजिराशब्दम् धृतभाषाणपादपः तान् दृष्ट्वा क्रोधतां राक्षो वानरान् लक्ष्मणस्ततः निर्मूलान् कर्तुमुद्युक्तो धनुर् नम्य वीर्यवान् शीघ्रं समाप्लुत्य ज्ञात्वा लक्ष्मणमागतं निवार्य वानरान् सर्वान् अङ्गलो मन्त्रि सप्तमः गत्वा लक्ष्मण सामीप्यम् प्रणनाम सदण्डवत् ततोऽङ्गलम् परिष्वज्य लक्ष्मण प्रियवर्धनः वाचवत् स गच्छ त्वम् पितृव्याय निवेदय मामागतम् राघवेण रोदितम् रोद्रमूर्तिना तथेति त्वरितम् गत्वा सुग्रीवाय न्यवेदयत् लक्ष्मण क्रोधतां राक्षे पुरद्वारि बहिष्ठतीव सन्तस् सुग्रीभो वा नरेश्वरः आहूय मन्त्रणां श्रेष्ठम् हनुमन्तं मथा ब्रवीत् गच्छ तं मङ्गलेनाशु लक्ष्मणं विनयान्वितः शान्त्व कोपितं वीरं शनैयानये सदरम् ेषयित्वा हनुमन्तम् तारामाह कपीश्वर तं गच्छ शान्तयन्ती तम् लक्ष्मणम् मृदुभाषितै शान्तम् अन्तः मेनघे भवत् वीति मध्ये कक्षम् समाविशेत् हनुमान्नदेनैव सहितो गत्वा न नाम चिरसा भक्त्या सा गतमब्रवीत् एहि वीरमहाभाग भवद्गृहम् अशङ्गितम् प्रविश्य राजदारादीन् दृष्ट्वा सुग्रीवमेव च यदाज्ञापयसे पश्चात् तत्सर्वम् कर्वाणि भो इत्युक्त्वा लक्ष्मणम् भक्त्या करे गृह्य स मारुतिः आनयामास नगरम् अध्याद्राजगृहं प्रति पश्यन् तत्र महासौधान् यूथपानां समन्ततः जगाम भवनम् राज्ञ सुरेन्द्र भवनोपमम् मध्यकक्षे गता तत्र ताराताराधिपान सर्वभरणसम्पन्ना मदरक्तान्तलोचना उवाच लक्ष्मणं नत्वा स्मित्वाभाषिणी एवर भद्रम से साधुम भक्तवत्म कोप्मा काशी भक् भूते कपीशरे बहुकाल अनाश्वासम दुखं बैवाभूतवादानी बहु दुखो घट भव अभी प्रसाद सुग्रीव प्राप्त सौख्यो महामती कामासक्तो रघुपतेः सेवार्थम् नागतो हरिः आगमिष्यन्ति हरि ओनादेश गता प्रभो प्रेषिता दशसहस्रा हरि ओ रघुथम् आनेतुं महापर्वतसन्निभान् सुगुरेव स्वयमागत्य सर्व वधै वधैश्चोहान् रावणम् च हनिष्यति तय्येव सहितोद्यैव गन्तावानरपुङ्गवहे पश्यान्तर्भवनम् तत्र पुत्र दारासुहृद्वृतम् दृष्ट्वा सुग्रीवम् अभयम् दत्त्वा नाय सहैव ते ताराय वचनम् श्रुत्वा कृज लक्ष्मणः जगामान्तः पुरम् सुग्रीवो वा नरेश्वरः रुमाम् आलिङ्ग्य सुग्रीव पर्यङ्के पर्यवस्थितः दृष्ट्वा लक्ष्मणमत्यर्थम् उत्पपाताति भीतवेत् तम् दृष्ट्वा लक्ष्मण क्रुधो मदविह्वलिते क्षणम् सुग्रीवम् प्राह दुर्वृत्त विस्मृतोऽति रघुत्तमम् वालीयेन तो तमेव वालिनो मार्गम् गमिष्यसि मया हत एवम् अत्यन्तपरिषम् वदन्तम् लक्ष्मणम् तदा वाच हनुमान् वीर कथमेवम् प्रभाषसे तत्तोऽधिकतरो रामे भक्तोऽयं वानराधिपः रामकार्यार्थम् मनुष्यम् जागर्ति न तु विस्मृतः आगता परितपश्य वा नर कोटिशप्रभो गमिष्यन्त्य चरेणैव सीताया परिमार्गणम् साधीषति सुग्रीवो रामकार्यं अशेषतः श्रुत्वा हनो मतो वाक्यम् सौमित्री लज्जितो भवेत् सुग्रीवोऽप्यर्घ्यपाद्याद्यै लक्ष्मणम् समपूजयेत् आलिङ्ग्य प्राहरामस्य दासो हंते रक्षितः स्वतेजसा लोकान् कि जेष्यति सहायमात्रमेवाहम् वानरी सहित प्रभ सौमित्री अपि सुग्रीवम् सह किञ्चिन्मयोजितम् तत्क्षमस्व महाभाग प्रणयाद् भाषितं मया गच्छामोद्यव सुग्रीव राम तिष्ठति कानने एकैवातिदुःखार्थ जानकी विरहा प्रभु तथेतीरसमारोह्य लक्ष्मणेन समन्वितः वानरे सहितो राजा पद्यते बेरी मृदङ्गै बहुवृक्ष वानरे श्वेतात् पत्रै व्यजनै च शोभित नीलाङ्गदाद्यै हनुमत्प्रधानै समावृतो राघवमभ्यगाधरे इस श्रीमदध्यात्मारायणे महामेशाकांडे पंचम सर्ग श्री सीताचंद्रपणमस्तू